शकुनिरुवाच अयम् मया पाण्डवानाम् धनुर्धरः पराजितः पाण्डवः सव्यसाची भीमेन राजम् दहितेन दीव्य यत्कैतवम् पाण्डवतेऽवशिष्टम् युधिष्ठिरौवाच यो नो नेता युधिनः प्रणेता यथावज्रीदानवशत्रुरेकः तिर्यक्प्रेक्षी सन्नतभ्रूर्महात्मा सिंहस्कन्धो यश्च सदात्यमर्षी बलेन तुल्यो यस्य पुमान्न विद्यते गदाभृतामग्र्य इहारिमर्दनः अनर्हता राजपुत्रेण तेन दीव्याम्यहम् भीमसेनेन राजन् वैशम्पाय न उवाच एतच्छ्रुत्वा व्यवसितो निकृतिम् समुपाश्रितः जितमित्येव शकुनिर्युधिष्ठिरमभाषत शकुनिरुवाच बहुवित्तम् पराजयिषीर्भ्रातॄंश्च सह आचक्ष्ववित्तम् कौन्तेय यदि तेस्त्यपराजितम्